अथ सप्तमस्कन्धः असुरेषु कथम् द्वेष सुरेषु प्रणयो हरेः सर्वभूतसमस्येदिपृष्ठो राज्ञाशुकोऽ ब्रवीद आरोऽप्यगद दोषेषु स्वाधिष्टाने स्फुरत्स्वपि असम्बन्ध तत्र दोषो न भवेत् एवम् गुणत्रयगदो दोषकालकृतो हरौ गुणाभिमानरहिते न भवेत् परमार्थदः एवमुक्त्वा समाधानम् निग्रहो हरिणाकृतः अनुग्रह इति स्पष्टम् नारदोक्तमवर्णयद मुक्तिं दृष्ट्वा चेदि पदे राजसूयेदु धर्मजः निन्दकस्य कथं मुक्तिरिति पप्रचनारदम् भगवत्पार्श्वदशब्दो द्वेषादे वहरिं स्मरन् विमुक्ता भूदित्यवो जन्ना रदो धर्मजं मुनिः तत्पूर्वजन्मवृत्तान्तप्रसक्रिया प्रह्लादचरितं पुण्यं सन्तुष्टो वर्णयन्मुनिः हिरण्यकशिपुर्ब्रह्म वराध्मादोकिलं जनम् तापयामासते दीनाहरिं शरणमागताः तत्पुत्रो भगवद्भगतः प्रह्लादोऽग्निजातिभिः पित्रा द्वेषाधिंसिदो वि हरिणामुहुः नारदानुग्रहं स्वस्मै प्रोच्य बालान् कृपार्द्रधीः विषये दोषमुद्धाट्य सचक्रे भगवत्परान् स्तम्भेऽस्ति हरित्येवम् ब्रुवाणं हन्तुमागधः अदो हिरण्यकशिपुर्नृसिंहे नोग्र तेजसा लक्ष्मीसमेतप्रह्लादमनुगृह्यस्तु दस्वकैः पार्षदोऽनुगृहीतोऽयमिति वैकुण्ठमागमद पूर्वं त्रिपुरसंहारे रुद्रस्य पिबदा मृदम् साहाय्यं वासुदेवेन कृतं गोरूपधारिणा वर्णाश्रमोचिता धर्मा नृणां श्रेयप्रधा ध्रुवं निष्कामेन कृतास्त्वेदे बन्धमुक्तिप्रदायकाः इति सामान्यदो धर्मान् विशिष्य च पृथक् सत्सेवाक्षे मदाभृशं यदि स्वस्यैव कथया नारदसमवर्णयद यदि सप्तमस्कन्दः